गरुडपुराणम् आचारकाण्डम् अध्यायम् फिफ्टीन् रुद्र उवाच संसारसागराद्धोरान्मुच्यते किम् जपन् प्रभो नरस्तन्मे परम् जप्यम् कथयत्वम् जनार्दन हरिरुवाच परेश्वरम् परम् ब्रह्म परमात्मानमव्ययम् विष्णुम् नाम सभस् त्रेण स्तुवन्मुक्तो भवेन्नरः यत्पवित्रम् परम् जप्यम् कथयामि वृषध्वज शृणुष्वहितो भूत्वा सर्वपापविनाशनम् ॐ वासुदेवो महाविष्णुर्वामनो वासवो वसुः बालचन्द्रनिभो बालो बलभद्रो बलाधिपः बलिबन्धनकृद्वेधा वरेण्यो वेदवित्किभिः वेदकर्ता वेदरूपो वेद्यो वेदपरिप्लुतः वेदाङ्गवेत्ता वेदेशो बलाद्धारो बलार्दनः अविकारो वरेशश्च वरुणो वरुणाधिपः वीरः च बृहद्वीरो वन्दितः परमेश्वरः आत्मा च परमात्मा च प्रत्यगात्मा वियत्परः पद्मनाधः पद्मनिधि पद्महस्तो गधरः परमः परभूतश्च पुरुषोत्तम ईश्वरः पद्मजङ्घपुण्डरीकः पद्ममालाधरप्रियः पद्माक्षः पद्मगर्भश्च पर्जन्यः पद्मसंस्थितः अपार परमार्थश्च पराणाम् च परप्रभुः पण्डितपण्डितेड्यश्च पवित्रः पापमर्दकः शुद्धप्रकाशरूपश्च पवित्रः पिपासावर्जितपाभ्यपुरुषप्रकृतिस्तथा प्रधानम् पृथिवी पद्मम् पद्मनाभप्रियम् प्रदः सर्वेश सर्वगः सर्ववित् सर्वदः सुरः सर्वस्य जगदो धाम सर्वदरुशोच सर्वभृत सर्वानुग्रहकृदेव सर्वा सर्वा सर्वभूतहृदि स्थितः सर्वपूज्यश्च सर्वाभ्याः सर्वदेवनमस्कृतः सर्वपूज्यश्च सर्वाभ्यः सर्वदेव सर्वस्य जगतो मूलं सकलो निष्कलो नलः सर्वगोत्रास् सर्वनिष्ठः सर्वकारणकारणं सर्वध्येय सर्वमित्र सर्वदे स्ववरूपदृक सर्वाध्यक्षसुराध्यक्षसुरासुरनमस्कृतः दुष्टानां च सुराणां च सर्वदा खातकोऽन्तकः सत्यपालश्च सन्नाभसिद्धे सिद्धवन्दितः सिद्धसाध्यसिद्धसिद्धः साध्यसिद्धो हृदीश्वरः शरणम् जगतश्चैव श्रेयः क्षेमस्तथैव च कृच्छ्रोभनसौम्य सत्य सत्यपराक्रमः सत्यस्थः सत्यसङ्कल्पः सत्यवित्सत्यदस्तः धर्मो धर्मी च कर्मी च सर्वकर्मविवर्जितः कर्मकर्ता च कर्मैव क्रियाकार्यम् तथैव च श्रीपदेर्नृपदि श्रीमान् सर्वस्य पदिरूर्जितः सदेवानाम् पदिश्चैव वृष्णीनाम् पदिरीडितः पदिर्हिरण्यगर्भस्य त्रिपुरान्तपदि पशूनाम् च पतिप्रायो वसूनाम् पदिरेव पदिराखण्डलस्यैव वरुणस्य पदिस्तधा वनस्पदीनां च पदिरनिलस्य पदिस्तथा अनलस्य पदिश्चैव यमस्य पदिरेव च कुबेरस्य पदिश्चैव नक्षत्राणां पदिस्तथा ओषधीनां पदिश्चैव वृक्षाणां च पदिस्तथा नागानां पदिरर्कस्य दक्षस्य पदिरेव सुहृताञ्चपदिश्चैव नृपाणाम् च पदिस्तथा गन्धर्वाणां पदिश्चैव असूनाम् पदिरुत्तमः पर्वतानां पदिश्चैव निमनगानाम् पदिस्तथा सुराणाम् च पदि श्रेष्ठकपिलस्य पदिस्तथा लतानाम् च पदिश्चैव विरुधाञ्चपदिथा मुनीनाम् च पदिश्चैव सूर्यस्य पदिरुत्तमः पदिश्चन्द्रमसश्रेष्ठशुक्रस्य पदिरेव च ग्रहाणाम् च पदिश्चैव राक्षसानाम् पदिस्तथा किन्नराणाम् पदिश्चैव द्विजानाम् पदिरुत्तमः चरिताम् च पदिश्चैव समुद्राणाम् पदिस्तथा सरसाञ्च पदिश्चैव भूतानां च पदिस्तद्धा वेदालानां पदिश्चैव कूष्माण्डानां पदिस्तद्धा पक्षिणां च पदि श्रेष्ठपशूनां पदिरेव च महात्मा मङ्गलो मेयो मन्तरो मन्तरेश्वरः मेरुर्मादा प्रमाणम् च माधवो मलवर्जितः मालाधरो महादेवो महादेवेन पूजितः महाशान्दो महाभागो मधुसूतन एव च महावीर्यो महाप्राणो मार्कण्डेयर्षिवन्दिदः मायात्मा मायया बद्धो मायया दुविवर्जितः मुनिस्तुतो मुनिर्मैत्रो महानासो महाहनुः महाबाकुर्महादान्तो मरणेन विवर्जितः महावक्त्रो महात्मा च महाकायो महोदरः महापादो महाग्रीवो महामानीमहामनाः महागतिर्महाकीर्तिर्महारूपो महा महासुरः मधुश्च माधवश्चैव महादेवो महेश्वरः मकेज्यो मखरूपी च माननीयो महेश्वरः महापादो महाभागो महेशोऽतीतमानुषः मानवश्च मनुश्चैव मानवानां प्रियङ्करः मृगश्च मृगपूज्यश्च मृगाणां च पदिस्तब्धा बुद्धस्य च पदिश्चैव पदिश्चैव बृहस्पतेः पदिशनैश्चरस्यैव राहुकेदोपदिस्तद्धा लक्ष्मणो लक्षणश्चैव लम्बौष्ठो ललितस्तद्धा नानालङ्कारसंयुक्तो नानाचन्दनचर्चितः नानारसोजवलद्वक्त्रो नाना रामो रमापदिश्चैव सभार्य परमेश्वरः रत्नदो रत्नहर्ताजरूपीरूपविवर्जितः महारूपोग्ररूपश्च सौम्यरूपस्तथैव च नीलमेकनिभशुद्धकालमेकनिभस्तर्धूमवर्णपदिवर्णो नानारूपोह्यवर्णकः विरूपोरूपदश्चैव शुक्लवर्णस्तथैव च सर्ववर्णो महायोगी यज्ञो यज्ञकृतेव च सुवर्णवर्णवांश्चैव सुवर्णाख्यस्तथैव च सुवर्णवयवश्चैव सुवर्णस्वर्ण मेफलः सुवर्णस्य प्रदाता च सुवर्णांशस्तथैव सुवर्णस्य प्रियश्चैव सुवर्णाढ्यस्तथैव च सुपर्णि च महापर्णि च कारणं वैनते यस्तथादित्य आदिराधिकरशिवः कारणं महदश्चैव प्रधानस्य च कारणं बुद्धीनां कारणं चैव कारणं मनसस्तथा कारणं च इदशश्चैव अहङ्कारस्य कारणम् भूतानाम् कारणम् तद्वत्कारणम् च विभावसोः आकाशकारणम् तद्वत् पृथिव्या कारणम् परम् अण्डस्य कारणम् चैव प्रकृतेः कारणम् तद्धा देहस्य कारणम् चैव चक्षुषश्चैव कारणम् श्रोत्रस्य कारणम् तद्वत्कारणम् चत्वचस्तद्धा जिह्वायाः कारणं चैव प्राणस्यैव च कारणम् हस्तयो कारणं तद्वत् पादयो कारणं तथा वाजश्च कारणं तद्वत् पायोश्चैव दुकारणम् इन्द्रस्य कारणं चैव कुबेरस्य च कारणं यमस्य कारणं चैव ईशानस्य च कारणं यक्षाणां कारणं चैव रक्षसां कारणम् परम् नृपाणाम् कारणम् श्रेष्ठम् धर्मस्यैव दुः कारणम् जन्तूनाम् कारणम् चैव वसूनाम् कारणम् परम् मनूनाम् कारणम् चैव पक्षिणाम् कारणम् परम् मुनीनाम् कारणम् श्रेष्ठयोगिनाम् कारणम् परम् सिद्धानाम् कारणम् चैव यक्षाणाम् कारणम् परम् कारणम् किन्नराणाम् च गन्धर्वाणाम् च कारणम् नदानाम् कारणम् चैव नदीनाम् कारणम् परम् कारणम् च समुद्राणाम् वृक्षाणाम् कारणम् तथा कारणम् वीरुथाम् चैव लोकानाम् कारणम् तथा पादालकारणम् चैव देवानाम् कारणम् तथा सर्पाणाम् कारणम् चैव श्रेयसाम् कारणम् तथा पशूनाम् कारणम् चैव सर्वेषाम् कारणम् तथा देहात्मा चेन्द्रियात्मा च आत्मा बुद्धिस्तथैव च मनसश्च तथवात्मा चात्मा हंकारचेतसः जाग्रतस्वपदश्चात्मा महदात्मा परस्तथा प्रधानस्य परात्मा च आकाशात्मा क्ष्यपाम् तथा पृथिव्या परमात्मा च रसस्यात्मा तथैव च गन्धस्य परमात्मा च रूपस्यात्मा परस्तथा शब्दात्मा चैव वागात्मा स्पर्शात्मा पुरुषस्तथा प्राणात्मा चवात्मा जिह्वाया परमस्तणत्मा चस्ता पादत्मा परमस्था उपस्त तथैवायुआत्मा परमस्त इंद्रात् ब्रह्मात्माद्रत् मनोस्त दक्षप्रजापदेरात्मा सत्यात्मा परमस्तथा ईशात्मा परमात्मा च रौद्रात्मा मोक्षविद्यदिः यत्नवांश्च तथा यत्नश्चर्मो गड्गीसुरान्तकः ह्रिप्रवर्तनशीलश्च यदीनाम् च यदि रूपी जयोगी जयोगि ध्येयो हरिषिदिः संविन्मेधा च कालश्च ऊष्मा वर्षामदिस्ति तथा संवत्सरो मोक्षकरो मोहब्रध्वंसकस्तथा मोहकर्ता च दुष्टानाम् माण्डव्यो वडवामुखः संवर्तकफलकर्ता च गौदमो भृगुरङ्गिराः अत्रैवशिष्टपुलः पुलस्थ्यकुत्स एव च याज्ञवल्क्यो देवलश्च व्यासश्चैव पराशरः शर्मदश्चैव गाङ्गेयो हृषीकेशो भृकश्रवाः केशवक्शन्दाज सुखर्ण कर्णवर्जिद नारायण महाभाग्राणस अ पदीशन पद उदान पद श्रेष्ठ सन से पदी शब्दस्य च पदि स्रष्टस्पर्शस्य पदिरेव च च पदिश्चाद्य खड्गपाणिर्हलायुधः चक्रपाणिकुण्डली च श्रीवत्साङ्गस्तथैव च प्रकृतिकौस्तुभग्रीव पीताम्बरधरस्तथा सुमुखो दुर्मुखश्चैव नखेन दुविवर्जितः अनन्दोऽनन्दरूपश्च सुनःखः सुरसुन्दरः सुकलाभो विभुर्जिष्णुर्भ्राजिष्णुश्चैषुधिस्तथा हिरण्यकशिपोर्हन्ता हिरण्याक्षविमर्दकः निघन्ता पूतनायाश्च भास्परान्दविनाशनः केशिनो दलनश्चैव मुष्टिकस्य विमर्दकः कंसदा नवभेत्ता चाणूरस्य जा प्रमर्दकः अरिष्टस्य निघन्ता च अक्रूरप्रिय एव च भगः भगवान् भानुस्तद्धा भागवतस्वयम् उद्धवश्चोद्धवस्ये युद्धवेन ह्युद्धवेन विचिन्तितः चक्रधृक् चञ्चलश्चैव चलाचलविवर्जितः चला अहङ्कारोपमश्चित्तम् गहनम् पृथिवी वायुश्चक्षुस्तथा श्रोत्रम् जिह्वा चघ्राणमेव च शङ्करश्चैव सर्वश्च क्षान्तिदः क्षान्तिकृन्दरः भक्तप्रियस्तदा भर्ता भक्तिमान् भक्तिवर्धनः भक्तस्तु दो भक्तपरकीर्तितकीर्तिवर्धनः कीर्तिर्दीप्तिः क्षमाकान्तिर्भक्तश्चैव दया परा दानम् दादा च कर्ता च देवदेव प्रियशुचिः शुचिमान् सुखदो मोक्षत्कामश्चार्धत्सहस्रपाद सहस्रशीर्ष वैद्यश्च मोक्षद्वारम् तथैव च प्रजाद्वारं. सहस्राक्षसहस्रकर साखस्त्रा एव च शुक्रश्च सुकिरीडी च सुग्रीवकौधो कौस्तुभस्तथा प्रद्युम्नश्चानिरुद्धश्च हयग्रीवश्च शूकरः मत्स्य पश्यु मत्स्यपरशुरामश्च प्रह्लादो बलिरेव च शरण्यश्चैव नित्यश्च बुद्धो मुक्तः शरीरभृदकरदूषणहन्ता च रावणस्य प्रमर्दनः सीतापतिश्च वर्धिष्णुर्भरतश्च तथैव च कुम्भोद् कुम्भेन्द्रजिन्निकन्ता च कुम्भकर्णप्रमर्दनः नरान्तकान्तकश्चैव देवान्तकविनाशनः दुष्टासुरनिकन्ता च शम्पराजिस्तथैव च नरकस्य निकन्ता च त्रिशीर्षस्य विनाशनः जमलार्जनभेत्ता च तपोहितकरस्तथा वादित्रम् चैव वाद्यम् च बुद्धश्चैव वरप्रदः सारसारप्रियः सौरकालहन्तानि देवलश्चैव नारदो नारदप्रियः प्राणोपानस्तदा व्यानो रजसत्त्वम् तमः शरद उदानश्च च भिषक्तथा कूटस्तस्वच्छरूपश्च सर्वदेहविवर्जितः चक्षुरिन्द्रियहीनश्च वागिन्द्रियविवर्जितः हस्तेन्द्रियविहीनश्च पदाभ्याम् च विवर्जितः पायूपस्तविहीनश्च महातपविवर्जितः प्रबोधेन विहीनश्च बुद्ध्या चैव विवर्जितः चेदसा विगतश्चैव प्राणेन च विवर्जितः अपानेन विहीनश्च व्यानेन स्पर्शेन च विहीनश्च सर्वरूपविवर्जितः रागेण विगतश्चैव अघेन परिवर्जितः शोकेन रहितश्चैव वचसा परिवर्जितः रजो विवर्जितश्चैव विकारैषड्भिरेव च कामेन वर्जितश्चैव क्रोधेन परिवर्जितः लोभेन सूक्ष्मश्च तूक्ष्मास्चा, स्तूलास्तूलतरस्तथा विशारदो बलाध्यक्षः सर्वस्य क्षोभकस्तथा प्रकृतेः क्षोभकश्चैव महतः क्षोभकस्तथा भूतानाम् क्षोभकश्चैव बुद्धेश्च क्षोभकस्तथा इन्द्रियाणाम् क्षोभकश्च विषयक्षोभकस्तथा ब्रह्मणः क्षोभकश्चैव रुद्रस्य क्षोभकस्तथा अगम्यश्चक्षुरादेश्य श्रोत्रागम्यस्तथैव च त्वचानगम्य एव वाचा ग्राह्यस्तथैव च अगम्यश्चैव पाणिभ्याम् पदागम्यस्तथैव पा च अग्राह्यो मनसश्चैव बुद्ध्याग्र्याह्यो हरिस्तदा अहम् बुद्ध्या तदा ग्राह्यश्चेतसा ग्राह्या एव च शङ्खपाणिश्चाभ्ययश्च च शार्ङ्गपाणिश्च कृष्णश्च ज्ञानमूर्तिः परन्तपः तपस्वी ज्ञानगम्यो हि ज्ञानी ज्ञानविवे विदेव च ज्ञेयश्च भावो भाव्यो भवकरो भावनो भवनाशनः गोविन्दो गोपतिर्गोपसर्वगोपी सुखप्रदः गोपालो गोगदिश्चैव गोमदीर्गोधरस्तथा उपेन्द्रश्च नृसिंहश्च शौरिश्चैव जनार्दनाः आरह्नेयो बृहद्भानुर्बृसद्दीप्तिस्तथैव च दामोदरस्त्रिकालश्च कालज्ञकालवर्जितः त्रिसन्ध्योद्वापरं त्रयधाप्रजाद्वारं त्रिविक्रमः विक्रमोद्दण्डहस्तश्च ह्येकदण्डी त्रिदण्डधृतसामभेदस्तथोपायसामरूपीजसामगः सामवेदो ह्यथर्वश्च सुहृदसुतरूपणः अथर्ववेदविच्चैव ह्यथर्वाचार्य एव च ऋग्रूपी चैव ऋग्वेद ऋग्वेदेषु प्रतिष्ठितः यजुर्वेत्पायजुर्वेदो यजुर्वेदविदेकपाद बहुपाच सुपाच्यैव तथैव च सहस्रपाद चतुष्पाच्य द्विपाच्यैव स्मृतिर्न्यायो यमो बली सन्न्यासी चैव सन्नयासश्चतुराश्रमयैव च ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ब्राह्मणः क्षत्रियो वैश्यशूद्रो वर्णस्तथैव च शीलतशीलसम्पन्नो दुःशीलपरिवर्जितः मोक्षोऽध्यात्मसमाविष्टस्तुतिस्तोताजपूजकः पूज्यो वाकरणम् चैव वाक्यम् चैव दुवाचकः वेत्ताव्याकरणम् चैव वाक्यम् चैव च वाक्यविद वाक्यान्यस्तीर्थवासीतीर्थस्तीर्थो वाक्या च तीर्थविद तीर्थादिभूतसाङ्ख्यश्च तीर्त निरुक्तम् त्वधितैवतम् प्रणवप्रणवेशश्च प्रणवेन प्रवन्दितः प्रणवेन च लक्ष्यो वै गायत्री जगदाधरः शालग्रामनिवासी च शालग्रामस्तथैव च जलशायी योगशायी शेषशायी कुशेशयः महीभर्ता च कार्यम् च कारणम् पृथिवीधरः प्रजापतिः शाश्वतश्च काम्यकामयिदा विराट सम्राट्पूषा तथा स्वर्गोरथस्तसारथिर्बलम् धनीधनप्रदो धन्यो यादवानाम् हिरेरथः अर्जुनस्य प्रियश्चैवस्य अर्जुनो भीम एव च पराक्रमो दुर्विशः सर्वशास्त्रविशारदः सारस्वदो महाभीमपरिजातहरस्तथा अमृतस्य प्रदाता च क्षीरोदः क्षीरमेव इन्द्रात्मजस्तस्य गुप्ता गोवर्धनधरस्तथा कंसस्य नाशनस्तद्वद्धस्तिपो हस्तिनाशनः शिपिविष्टप्रसन्नश्च सर्वलोकार्तिनाशनः मुद्रो मुद्राकरश्चैव सर्वमुद्राभिवर्जितः देही देहस्थितश्चैव देहस्य च नियामकः श्रोत्रा श्रोत्र नियन्ता च श्रोतव्यश्रवणम् तद्ध त्वश्च स्पर्शयित्वा स्पृश्यन् च स्पर्शनम् तथा रूपद्रष्टा चक्षुस्थो नियन्ता चक्षुषस्तथा दृश्यं चैव दुजिह्वास्थो रसज्ञश्च नियामकः ख्राणस्थो ख्राणकृत्ख्रादा ख्राणेन्द्रियनियामकः वाक्स्तो वक्ता च वक्तव्यवचनम् वाङ्नियामकः प्राणिस्तशिल्प कृत्शिल्पो हस्तयोश्च नियामकः पादव्यश्चैव गन्ता च गन्तव्यम् गमनम् तथा नियन्तापादयोश्चैव पाद्यभाक् च विसर्गकृत विसर्गस्य नियन्ताजह्युपस्तः सुखम् तथा उपस्तस्य नियन्ता च तदानन्तपरश्च शत्रुघ्नः कार्तवीर्यश्च दत्ताेय अर्कल्स अलर्कित कर्तवीयृंदन कलने मे मेरे मेखपतिथ अन्न प्रदोन्नूपी चह्य दो प्रवर्तक धूमकृद्धूमच देवकी पुत्र उत्तम देवक्यानन्दनो नन्दो रोहिण्या प्रिय एव च वसुदेव प्रियश्चैव वसुदेव सुधस्तदा दुन्धुगीर्हासरूपश्च पुष्पहासस्तथैव च अट्टहासप्रियश्चैव सर्वाध्यक्षरोक्षरः अच्युतश्चैव सत्येश्च सत्यायाश्च प्रियो वरः रुक्मिण्याश्च पतिश्चैव रुक्मिण्या वल्लभस्तथा गोपीनां वल्लभश्चैव पुण्यश्लोकश्च विश्रुतः वृषा कपिर्यमो गुह्यो मङ्गलश्च बुधस्तद्धा राहुके दुर्ग्रहो ग्राहो गजेन्द्रमुखमेलकः ग्राहस्य किन्नरश्चैव सिद्धस्त छन्दस्वच्छन्द एव च विश्वरूपो विशालाक्षो दैत्यसूदन एव च अनन्तरूपो देवदानवसंस्थितः सुषुप्तिस्तः सुषुप्तिश्च स्थानम् स्थानान्त एव च जगत्तश्चैव जागर्तास्थानम् तथा स्वप्रस्तस्वप्रवित्स्वप्नस्थानम् स्वप्नस्तथैव च जाग्रस्वप्नसुषुप्तैश्च विहीनो वै चतुर्भकः विज्ञानम् वेद्यरूपम् च जीवो जीवयिदा तथा भुवनाधिपधिश्चैव भुवनानाम् नियामकः पादालवासी पादालम् सर्वज्वरविनाशनः परमानन्दरूपी च धर्माणाम् च सुलभो दुर्लभश्चैव प्राणायामपरस्तथा प्रत्याहारोद्धारकश्च प्रत्याहारकरस्तथा प्रभा कान्तिस्तदा ह्यार्चिशुद्धस्फटिकसन्निभः अग्राहश्चैव गौरश्च सर्वशुचिरभिष्टुदः वषट्कारो वषड् वौषट् स्वधा स्वहारधिस्तथा पक्तानन्दयिता भोक्ता बोद्धा भावयिता तथा ज्ञानात्मा चैव देहात्मा भूमा सर्वेश्वरेश्वरः नन्दी नन्दी च नन्दीशो भारतस्तरुणाशनः चक्रपश्रीपदिश्चैव नृपाणां चक्रवर्तिनाम् ईशश्च सर्वदेवानाम् द्वारका संस्थितस्तथा पुष्करपुष्कराध्यक्ष पुष्करद्वीप एव च भरतो जनको जन्यसर्वाकारविवर्जितः निराकारो निर्मित्तो निराकारो निर्निमित्तो निरातङ्गो निराश्रयः इति नाम सहस्रं ते वृषभध्वजकीर्तितं देवस्य विष्णोरीशस्य सर्वपापविनाशनं पठन् विष्णुत्वं क्षत्रियो जयमाप्नुयाद वश्योध वैश्योधनम् सुखम् शूद्रो विष्णुभक्तिसमन्वितः इति श्रीगरुडे महापुराणे आचारपाण्डे श्रीविष्णु सहस्रनामस्तोत्र निरूपणम् नाम पञ्चदशोऽध्यायः ओम्